यदा प्रभृति दग्धास्ते कुन्ति भोजसुता सुताः तदा प्रभृतिगान्धारे न शक्नोम्यभिवीक्षितुम् लोके प्राणभृतां कञ्चिच्छ्रुत्वा कुन्तीं तथा तथागतां नचापि चापि दोषेण तथा लोको मन्येत्पुरोचनं यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति तदिदं जीवितं तेषां तव किल्बिशनाशनं सम्मन्तव्यं महाराजा पाण्डवानां च दर्शनं न चापि तेषां वीराणां जीवतां कुरुनन्दना पित्योंशक्य आदातुम् अपि वज्रभृता ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकतेतसः अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् इति श्रीमहाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि भीष्मवाक्ये द्व्यधद्विशतमोध्याय